मागतमृषिं दृष्टा प्रत्युद्गम्याभिवाद्य च आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः देवर्षेरुपविष्टस्य स्वयमर्घ्यं यथाविधि प्रादाद्युधिष्ठिरो धीमान् राज्यं तस्मै न वेदयत प्रतिगृह्यत तां पूजां ऋषिः प्रीतमनस्तदा आशीर्भिर्वर्धयित्वा च तमुवाचास्यतामिति निशसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः कथयामास कृष्णायै भगवन्तमुपस्थितं श्रुत्वैतद्रौपदी चापि शुचिर्भूत्वा समाहिता जगामतत्र यत्रास्ते नारदः पाण्डवैः सह तस्याभिवाद्यचरणौ देवर्षेर्धर्मचारिणी कृताञ्जलिः सुसंवीता स्थितात् द्रुपदात्मजा तस्याश्चापि स धर्मात्मा सत्यवागृशिसप्तमः आशिषो विविधा प्रोच्य पुत्र्यास्तु नारदः गम्यतामिति होवाच भगवान्स्तामनिन्दितां गतायामथ कृष्णायां युधिष्ठिरपुरोगमान् विविक्तो पाण्डवान् सर्वान् उवाच भगवान् ऋषिः नारद उवाच पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयताम् सुन्दोपसुन्दौ हि पुरा भ्रातरौ सहितावुभौ आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ एकराज्यावेकगृहवेकशय्यासनाशनौ तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः रक्षतां सौहृदं तस्मादन्योन्यप्रीतिभावकं यथा वो नात्र भेदः तत्कुरुष्व युधिष्ठिर युधिष्ठिर उवाच सुन्दोपसुन्द वसुरौ कस्य पुत्रौ महामुने उत्पन्नश्च कथं भेदः कथं अप्सरादेव कन्या वा कस्य चैषातिलोत्तमां यस्याः कामेन सम्मत्तौ जघ्नतुस्तौ परस्परम् एतत्सर्वं यथावृत्तं विस्तरेण तपोधन श्रोतुमिच्छामहे ब्रह्मन् परं कौतूहलं हिनः इति श्रीमहाभारते आदिपर्वणि विदुरागमनराज्यलम्भपर्वणि युधिष्ठिरनारदसंवादे सप्ताकशतमोध्याय